कच्चिदभ्यवहार्याणि गात्रसंस्पर्शनानि च ध्रेयाणि च महाराज रक्षन्त्यनुमतस्तव कच्चित् कोशश्च कोष्ठम् च वाहनम् द्वारमायुधम् आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशम्पते रक्षस्यात्मानमेवाग्रे तांश्च कच्चिन्ने दूते व्रीडासु प्रमदासुचानती पुर्वाने व्यय व्यसन जम तव कच्चिदा चाधेन चतुर्भागे पादभागैस्त्रीर्वाय संशु्यव कच्चिज्ञातीन् गुरुन वृद्धा वणिज शिश्रिता अभीक्षणम गृहसी धनधान्यन दुर्गता कच्चिच्चायव्यये युक्ताः सर्वे गणकलेखकाः अनुतिष्ठन्ति पूर्वाह्मे नित्यमायं व्ययं तव कच्चिदर्थेषु सम्प्रौढान् हितकामाननुप्रियान् नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषं कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् त्वं कर्मस्वनुरूपेषु कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः कच्चिन्नचौरैर्लुब्धैर्वा कुमारैस्त्रीबलेन वा, वा इर कुमारै त्वया वा पीड्यते राष्ट्रम् कच्चित्तुष्टाः कृषीबलाः कश्चिद्राष्ट्रे कच्चिन्न भक्तम् बीजम् च कर्षकस्यावसीदति प्रत्येकम् च शतम् वृद्ध्य ददाश्र्युणमनुग्रहम् कच्चित् स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः वार्तायाम् संश्रितस्तात लोकोऽयम् सुखमेधते कच्चिच्छोरा कृतप्रज्ञाः पञ्च पञ्चसनुष्ठिताः क्षेमम् कुर्वन्ति संहत्या राजञ्जनपदे तव कश्चिन्नगरगुप्त्यर्थम् ग्रामा नगरवत्कृताः ग्रामवच्च कृताः प्रान्तास्ते च सर्वे त्वदर्पणाः कश्चिद् बलेनानुगताः समानि विषमाणि च पुराणि चौरान्निघ्नन्तश्चरन्ति विषये तव